मार्कण्डेयपुराणम् अध्यायं 36 जड उवाच स एवमनुशिष्टः सन् मात्रा सम्प्राप्य यौवनं हृदध्वजसुधश्चक्रे सम्यग्दारपरिग्रहं पुत्रांश्चोत्पादयामास यज्ञैश्चाप्ययजद्विभुः पितुश्च सर्वकालेषु चकाराज्ञानुपालनं ततःकाले नमः कदा सम्प्राप्य चरमं वयः चक्रेऽभिषेकं पुत्रस्य तस्य रज्ये हृदध्वजः भार्यया सह धर्मात्मा इया सुस्तपसेवनम् अवतीर्णो महारक्षो महाभागो महीपतिः मदालसा च तनयं प्राहेदं पश्चिमं वच कामोपभोगसंसर्गप्रहाणाय सुदस्य वै मदालसोवाच यदा दुःखमसख्यं ते प्रियबन्धुवियोगजं शत्रु बाधोद्भवं वापि वित्तनाशात्मसम्भवं भवेत्तत्कुर्वतो राज्यं गृहधर्मावलम्बिनः दुःखायतनभूतो हि ममत्वालम्बनो गृहि तदास्मात् पुत्र निष्कृष्य मद्दत्तादङ्गुलीयकाद् वाच्यं ते शासनं पट्टे सूक्ष्माक्षरनिवेशितं जड उवाच इत्युक्त्वा प्रददौ तस्मै सौवर्णं साङ्गुलीयकम् आशिषश्चाभिया योग्याः परुषस्य गृहे सतः तदक्कु सा च देवी मदालसा पुत्राय दत्त्वा तद्राज्यं तपसे कननं गतौ इति श्रीमार्कण्डेयपुराणे षट्त्रिंशोऽध्यायः ओ